वोम् सालित्लार जहाले प्रदोः प्रेजदर्प्रेश जुहोचतुष्टादः अशमः पशूने वा प्रचतिष्ठति छन्दाकुं च देवेभ्यो नवभागां रक्ष्यामैदितेभ्ययेतच्चतुर्भे तमधारयन् पुरोन वाक्यायी आद्यायै देवतायैवकारायश्चतुर्भिन्दागस्येवदर्त्रेणादिदान्यस्य प्रेतानि देवेभ्यम् भवन्त्ययङ्कामय दपापीयान् शाजित्यैकैकन्दस्यजुः जाताहुतेऽभिरेवेण गृह्णादिपापीयान् भवतियङ्कामय दवसीयान् शाजिति सर्वाणि तश्चानुद्रत्यजुः जाताहुतेवैनमभिक्रमय दिवसीयान् भवत्यथो यज्ञस्तैनाभिक्रान्मुखादृध्याया देवता जायेत्यष्टावेतानि सा वित्राणि भवन्त्यष्टाक्षरा गायत्री गायत्रोग्युस्ते नैव यज्ञमुखादृद्ध्या अग्न देवता यैनेत्यष्टौ सा वित्राणि भवन्त्या उदन्यहमे त्रिपदमेव यज्ञमुखे विजातयधि यदि कामलेन छन्दाकुं दियज्ञे ससेना त्वयमित्तुजवन्तमाङ्कुर्याच्छन्दाकृत्येव यज्ञामले यजमानयज्ञमम् कुर्यात् यजमानमेव यज्ञ ससेना पयत्रुजास्तोमकुम् समर्थयेत्याहतमध्ये चतुर्भिरभ्रिमानस्ते छन्दागुम् निच्छन्दाभिलेवदेवस्य प्रभव इत्याहप्रापिता यत्रावधत्तकृष्णवत्कल्माभि भवति रूपसमर्थाभवयाक्ष्माभवति कश्चामुदश्चार्कस्यावरुद्धेभ्यः भवत्येतावद्भै पुरुषैर्वीद्यम् वेद्यम् मिता परिमिता भवत्य परिमितस्यावरुद्ध्यै वनस्पतीणाम् फलग्रहिस्सरेणाम् वेद्यावान्फलग्रहिर्वेणुर्वैणवे भवति वीर्यस्यावृद्धये यज्ञश्रयदयजुष्केण क्रियतनामृतश्चेत्यष्पाभिधानीमानत्ते युष्कृत्यै यज्ञश्च तमध्ये वा विन्दार्द्रवेत्यश्च पभितधातुलोपमे वः श्रैतन्महिमानं व्याजष्टे विञ्ज्याधा गुङ्गादभञ्जुवमिति गर्दभवदत्येव गर्दभम्ष्ठापयजितस्पादस्वादभोधत्तरो योगेन योगे तवस्तरमित्याह योगे योगगेवैनैयुङ्गे वाजय वाजे हवामहगत्याहाजोन्नमेवावरुन्धे सखायीन्द्रमोदय वित्याहेन्द्रियमेवावरुन्धेभ्यो जनायतं प्रजापजलन्मविन्दत्राभत्यं भरत्य निमित्यै पापवस्तवा जापैराजतपालकर्म कुर्वन्त्य भवदेवज्रष्टर्वर्णैक्यवक्रामन्मधस्ते नित्याहवज्रेणैव पात्मानं भ्रातम्यमवक्रामजरुद्रगाणवत्यादित्याह ेव्याच्चात्मने कर्म गुरुदे पुरे जायतनो वा एतयज्ञरङ्गिरथो वा एतमग्रे देवता नागं तमफलं पृथिव्यास्पदश्चाधज्ञम् पुरेश्च मङ्गिरस्पदच्छेहेत्याहसायतनमेव देवताभिस्सम्भरत्यज्ञम् पुरेश्वरङ्गिरस्पदच्छे यिश्चायेन सङ्गक्ष देवायमेवास्य वृन्द प्रजापदय प्रतिप्रा चाज्ञः सम्भृत्यहुयं प्रजापतिष्ठस्यादेतत्सोत्रेकोऽग्निम् पुरेश्च मङ्गिरस्त्वद्धरिष्यामयुरि वल्मेकमवामपतिष्ठदे आगत्य वा जद्भर आक्रम्य वा जन्मधिवे विद्यायेच्छत्येवया विन्दत्युत्तरयात्माभ्यामाक्रमय प्रतिष्ठत्या अनुरोपाभ्या ृष्ठम् पृथवेस्तविद्याहयेभ्यो वा शेतन्महिमानम् व्याचष्टे वज्रीवारेलयदस्मादद्भिरन्यतोभयादद्भ्योऽयम् दृश्यात्तमधर्मदन्ध्याये वद्र नैवेन ग्रस्तृणुते मोदक्रमे जनित्वाभ्यामुक्रमये प्रदच्छत्या मनलोपाभ्याम् पदव प्रजालयन्ते पदौषन् प्रतिष्ठन्ते पदमानप्रतिष्ठन्ते पशो लेस्तस्मादवौ प्रतिष्ठन्तेज्ञवत्यैव छे प्रदेश्यन्तं भुवनानि विश्वेत्याह सर्भग्येन प्रत्यङ्शैरि भृगन्तमित्याहान् महान् भवतिव्यष्ठमन्न गौरवसंविधानमित्याहास्मैस्मै स्वरदे भिगच्छति तद्वाजां वेदमनधातुम्यमनस्पदे यज्ञमुखे यज्ञमुखे वैवाने यज्ञं रक्षागं प्रतिघागम् येन परिलिखतिस्तस्मात् रक्षागश्च वहन्ति गायत्र्या परिलिखति ते जा गायत्री तेजथैवै परिग्रन्थादि सृष्टुपा परिलिखति ष्टगेन्द्रिय नैवेन परिगृह्णाच्य नष्टभावलिखच्चष्टप्सर्वानिषन्धागुन्द्रपरिभो मध्यता रष्टभावाग्वा नष्टस्मान्मध्यता वाचामो गायत्र्या प्रसमया परिलिखत्य सा नष्टुभास्रष्टुभाचै गोमे गायत्री यज्ञो नष्टुगेन्द्रियम् द्रष्टप्त्यजसा दैवन्द्रियेण चो भजतो यज्ञम् परिगृह्णाति ए <sweak> ेवस्यत्वाेतेन जनयति ज्योतिष्पन्दन्त्वाग्ने हरत्यपाम्बा एतत् पृष्टं यत् पुष्करवर्णगौ रूपेण नैवेन आहरति पुष्करवर्णेन सम्भरति यो निर्वाग्ने पुष्करवर्णगो भयोनिमेवज्ञगौ सम्भरति कृष्णादिनेन सम्भरति यज्ञो वै कृष्णादिने यज्ञेनैव यज्ञकौ सम्भरति यद्म्यानाम् पशूनाञ्चभरेतात्मगे कृष्णादिने सम्भरति स्मावत्पशूनाम् प्रजायमाना भक्तगुंसुताश्युता नो भदस्सम्भरत्यमेभ्यम् रत्नादिनम् च पुष्कर वर्णञनादेयं वेत्नादिनमधो पुष्कर बण्डभाभ्यामेव परिगृह्णा चक्रदेवेभ्यो दिनागतम सर्वान् न सर्वा ग्त्याहरिदेवैमन्वपश्यत्य नैवष्करा दधेत्याह पुष्करपर्णैक्येन दत्तमुद्वादध्यङ्गणश्चाधेत्यं त्रिचन्दोऽ गायत्रेभिब्राह्मणस्य गायत्रो हिब्रानस्तृष्टग्मये तपसीयाभयेभिष्टश्च सम्भरेत्यष्टैवा स्मारिन्द्रियञ्च समेत्यष्टाभिस्तम्भरत्यष्टाक्षरा गायत्री गायत्रो जगावादेवांभरीजो धरित्याह देवतां साध मनुष्या सकम् क्रेतस्मे दिवयाकम् न अग्रे अह्नामित्याहदेव मनुष्यामेवाचैकम् सन्धान् प्रजनयति अस्यानेतत्करा निरक्षणत्यपोपसरत्यापो नै शान्ता शान्ताभिदेव जगं समयन्ते वायम्प्राणेनैवास्यैः प्राणं सन्दधा हटस्मा वायप्रच्युतादिवृष्टिरेत्येतस्मै जगे विपक्षणस्तदभ्यमित्या हट्वादवस्मेव न्दर्वा जगो न्यातयामाश्चन्नर्पणित्याहत्करोधयामायज्ञागम् जग्भ्यन् त्रिसुजातो ज्योतिनादयत्तरक्तभोन्दागम् द्विछन्दागुम् प्रियात नुभापरित एवम् वेदवारणोत एवम् वरुणमेयमुत्सृजयित्वाभ्याम् प्रतिष्ठत्येत जातो गर्भो अभियोगस्यो नित्या हेमेव गर्भो यदज्ञस्मादेवमाहा भवति प्रमारभ्याणिकृयित्याहोस्य पादरस्ताभ्यदेवेनं प्रच्या वेति स्थिरो भवेद्वङ्गयिति गर्तभासा नेदया सम्भरति तस्मात् गर्दभः पशूना ेन सम्भरन्ति कर्दभेन सम्भरति तस्माभोद्यरेता सङ्कनिष्ठम् पशूनाम् प्रजायतेर्जस्य योनिर्निर्गहरे प्रजा सुवादेशे क्यारूढस्वगेश्वरः प्रजाशिदा प्रदः शिवः प्रजा दैत्याः प्रजाभ्य ेन गुंशमयति मारुभेभ्यस्तमङ्गिरयत्याहवानव्योभि प्रजावाज्या वा पृथिवी भिजो सोमान्तरे वनस्पते नित्याहै वैदम् लोकशमयति प्रैतुवादे कनिक्रदनित्याहवादेशनानध्रासभक्पेत्याहदासभगिनिश्चरन्नग्निम् पुरेष्टमित्याहाग्भरतिमापाद्यायुषः पुरेत्याहायुदेवास्मिन् दधायितस्माभः सर्ववायुर्वेदितस्मा प्रवेत बिभ्यति वृषाज्ञम् वृषणम् भरन्नित्याह वृषाश्चेण वृषाज्ञलपाङ्गद्भगुम् समुद्रयमित्याहायशगद्भोयज्ञरज्ञायाधिपेतयति वायुवो लोकेताभग्नायाधिपेतरयि यदाहारो लोकयो प्रेत्ये प्रच्युतो वायतनादगतः प्रतिष्ठागं प्रयेत यद्भर्यं च गिरमानञ्च ध्यागत्रगं धित्याहेयं वा रथमरो धनय प्रतिष्ठामयतिभर्यं न यमानो परुणो वा एमानमभ्येदयरग्निरुपार्थबोढलः प्रदगणेताग्निवेदमित्याशान्ते यश्चमतेरीत्या त्याः प्रतिष्ठेत्याहौषधयोगजयन्ताभिरेव पुष्पावस्मादोषयः फलं गृह्णन्त्यगं भोगद्भरित्ययप्रत्यगं वैनं प्रख्यापय दिदास्वेवैनं प्रतिष्ठापय जाभ्या भवावह Dr. Reddy ज्ञरूपणधा विवा जति विस्रगुम्प्रसोदेवस्य विषोजीम् वरुणवेणिम् विधुजत्यव उपसृजत्यापो वै शान्ताः शान्ताभिदेवास्य सुजगुम् शमयति पितृभिरुपथित्रभृत्वा अग्निर्यावानेवाज्ञस्तस्य सुजगुम् शमयति प्राणिसुजापर्यगपालैः सगं सृजत्येतानि वा अनुपजेवनेयानि ता नैव सृजात्पय निसर्कराभिस्तकं सृजनिधृत्या अथो सन्तायाजलोमैः सगं सृजत्येतदा वाग्न प्रियातनोर्यजदा प्रियदेवैनन्दनभाषगं सजत्यथो जदा कृष्णा ृजति यज्ञो वै कृष्णाजिनैयज्ञेनैव यज्ञकं सगं सुजुर्गाः संभृत्य पृथिवेत्याहैतावाता अर्के समभरन्ताभिरेवत्याह यज्ञो वै मकस्तस्यैतच्छिरो युगादस्मादेवमाहयज्ञश्च पदयश्चैत्याह यज्ञस्य ज्ञै पुनश्च प्राण्याभिर्यच्छत्यं पन्नेर्मन्त्रय यत्रैन्दां वैछन्दािवेद्यमुखेन संविधानाङ्गलो दिव्या वा पृथिव्या दोहायस्तनाङ्गोहायाङ्गलो दीक्षन्त ेवत्यभ्रातनुत्ये कृत्वा यसा मही मुखामिति निर्धारि देवतः प्रतिष्ठापयति सप्तभिद्धोपयति सप्तभिशीर्घन्याः प्राणाशिरयेणस्य य दुःखाशीर्णम् देव यज्ञस्य प्राणान् व्यधारितस्मात् सप्तशीर्णम् प्राणा अश्वशयेन धोपयति प्राजावत्यो वा अश्वस्तयो नित्वागादित्या हेयम् वा अधिरजित् ्याः देवानां मादेतां पत्रयोग्रे गुरुपन्ताभिदेवैना दधाह विद्याभिजना विद्याभिदेवेना मधेनास्पेत्याः छन्दागुं शिवै न्याश्चन्दाभिदेवैनागश्यवयेवरोत्रयस्पेत्याः होत्राभिोत्रयो होत्राभिदेवैनाम् भजत्र जनयस्पेत्याः देवाना त्यापत्यमाना पृथिव्या तिष्ठते भवतिष्ठध्रुवाक्रमित्याः प्रतिष्ठित्या सूर्यम् वाक्रमणाक्षणत्येवत्रागलक्षीरेणत्यवम् वाैनाम्पयदाक्षणत्येजुभाव्यावृत्ते छन्दभिराक्षणत्यछन्दभिर्वादेहा क्रियते छन्दभिरेव छन्दागस्ताक्षणत्ये एकविं सत्या मासैः पुनशे नवक्षैत्यमे ध्यामै माजामे ेष्येवास्यायमेभ्यं गृत्वा हरत्यैकविंशवन्त्यैकविषस्याः प्राणाप्राणे लैर्येभ्यत्वा यावन्तो वै मृत्युबन्धमस्ते tha yamahivacyam paliyayaya mahatha va parikarita yamahaveinatrunte parikaritastai me lokade bhagaveinulloke devunte taspa gayate namade linga tha vidatrunte भ्यः पशो नालभदे कामावाग्रयक्तावरुन्धे यत्पशोन्नालभेदानवरुद्धास्य पशवस्कुर्यत्पर्यज्ञकृतानुसृजेद्यज्ञवेदशङ्कुर्याद्यस्थापये ज्ञातयामानिशे यत्पशो नानभदेते तेनैव पशोनवरुन्धे यत्पर्यज्ञकृतानुसृजति शेत्तामयादयामत्वाय प्राजाभक्तेन सग्स्थापयति यज्ञो वे प्रजापदल यज्ञ एव यज्ञं प्रतिष्ठामय प्रजापय प्रजा असृजन सरिता नामन्यत समेता आ प्रेरवशत्ताभिे समुखद आत्मानमा प्रेणेत प्रजाभवन्ति यज्ञो मे प्रजापदल यज्ञमेवेताभिर्मुखद आप्रेणाप्यपरिद चन्दतो भवन्त प्रजापद प्रजापदेहात्यागोनातिरिक्ताभिसुना प्रजाक्येन वशं वै नामैकच्छन्दः प्रजापदे पशवशाः पशोने वा वृन्धे सर्वाणि वा एतारूपाणि सर्वाणि रूपाण्यग्नौ जित्येव क्रियन्ते तस्मादेता अग्नेश्चित्यस्य भवन्त्येकविगुंशजिगुंसामिधेनेरन्वा हरुग्कविपुंशोऽगमेव गच्छत्यथ प्रतिष्ठामेव प्रतिष्ठात्यैकविगुंशश्चतुर्विगुंसदिमन्वाहचतुर्विगुंसन् ैश्वानरमवन्धे भगवलोकमा स्वाग्रन्वित्या हतमाभिं वर्धय त्रितुभिः संवत्सरं विश्वाभा्यादित्या हरस्मादग्निः सर्वादिशा निभानि प्रत्योहतामश्विनात्यमस्पादित्य मृत्यमेवा स्वादवत्युद्वयन्तमशस्परेत्याहमात्मावि नमः स्वादवहन्तो निरुत्तममित्याहादौ मादित्या ज्योनिरुत्यैवच्छ जनसंवत्सरस्तिष्ठदिनाश्च श्रेस्तिष्ठदियश्चैता क्रियन्ते ज्योतिष्वदेमुत्तमावन्वाह ज्योतिरेवास्मायष्टात्मधा जतु भर्गस्य लोकस्या ख्यात्यये <coughs> षड्भृद्दे क्षे षड्वा रदभरदभिरेणम् देक्षयति सप्तभिद्दे क्षयति सप्तछन्दागुन्द्रन्दोभिरेवेण देक्षैदि विश्वे देवस्य नेतृत्यष्टुभास्मात् प्राणानाम् वागुत्तमैकस्मादक्षराधनाप्तम् प्रथमम् परञ्जस्मात्यष्या उपजीवन्त्यहोति प्रजापदे प्रजापते नात्यैनयाजो नाद्य प्रजापति प्रजासृजन प्रजानागम् नेष्ठे यदर्त्य प्रवन्ध भूतमवरुन्धे नेदङ्गारेषु भविष्यदङ्गारेषु प्रवर्णक्ति भविष्यदेवावरुन्धे भविष्यद्धि भोज भूताभ्याम् जमानो हन्येतास्ते यज्ञो मित्रैता मुखान्तवेत्या ब्रह्म वे मित्र ब्रह्मन्नेवैना प्रतिष्ठापय दिनास्त्यज्ञो हन्यैरेव कपालेश्व प्रायश्चेत्तरियो घटश्रेस्यान्मत्वादस्यावदध्या भूतो वातामुपेजय भूति कामस्याद्यमुखायी सम्भवेत् स देव तस्य स्यादधा येन सम्भवत्येन वैस्वम्भवान् नामभवत् देवयम् कामनेदभ्यामस्मै नयेत्यन्यतस्तस्यावदध्यात् साक्षादेवास्मे भ्रातुर्यलयत्यम् मूर्धेवास्त्वा अपि तथा चक्रर्देव कृकम् प्राविशत्कृकमवदधा जयदेवाण्यन्तदेवावरुन्धाज्येन सय्यौ एतद्माज्ञन्धा भगदाज्ञम् प्रियणैवेदन्धाम् नादमर्दयत्यथोते यथा वैकङ्गदेवादधातिभा एवावरुन्धे च मेव एवादधान्तेनत्वम् मातुरस्या उपस्थगित चिरभिरज्ञातमुपतिष्ठते ेवनम् गच्छत्र प्राणानेवास्मन्धस्मे न हस्मै पुराग्रपरशुवृक्षि तदस्मै प्रयोगकेवरसिरस्मदग्ने ोर्वादुम्बरवोर्ध्यमेवा स्वाभिधाने प्रजापति अग्निवश दम् रक्षागस्य जिघागम् क्षोग्नमपश्यते नवेदक्षागस्य पाहभयद्रा क्षोघ्नम् भवत्यग् तेन जाता हन्त्याश्वत्थे मादधात्यश्वं सवत्रधाकङ्कजै मादधातिभा एवावरुन्धेशमेव ये मादधातिभां ते शगुंशिरम् मे ब्रह्मो देशां बाहु अतिशरमित्युत्तमे औदुम्बरे वाचयति ब्रह्मणेव क्षत्रगुंस गच्छति क्षत्रेण ब्रह्मणस्मा ब्राह्मणो राजन्यमान ग्निरमृतम् हिरण्यगं हन्तरं प्रतिमुञ्च देव मृत्योरन्तर्ध विपुंशनिर्बाधो भवत्येकविपुंशदिर्वैदेव लोकाद्वादशबाधापञ्चत्तवस्त्रै यमे लोका असावधित्यरेकविपुंशदेतावन्तो वैदेव लोकास्तेभ्यदेव भ्रातरु यमन्तरे निर्बाधे वैदेव असुरार्बाधे गुरुवध तन्यर्बाधाना निर्बाधत्व निर्बाधे भवति भ्रातरु निर्बाधे गुरुदेशावित्रिया प्रतिमुञ्चतेभ्यामेवेन देवाग्यन्धारयन्द्रविणोदाह प्राणावै देवात्र विनोदा अहोरात्राभ्या देवेन उद्य प्राणेन धारादेन प्रतिमुञ्चते तस्मादादीना प्रजा प्रजायन्ते नष्टाजनमुत्तरन्ते नो वैहिरञ्जं ब्रह्म ैवै ब्रह्मणा चोभयतः परिगृह्णाति षडुद्यावगौ यज्ञम् भवति षड्वारतवर्तुभदेवैनमुद्यक्षते यद्वारसाद्यावगौ संवत्सरेणैव भौञ्जम् भवत्योर्द्वैजा समत्सरभर्णोति षडुपाणि रूपमेवास्येजन्महिमानम् व्याजत्ते दिवम् गच्छतु वक्पदेत्यामधुभगमेवैनम् लोकम् गमयति समिद्धो अञ्जन् कृतरम् मदीनाम् कृतवेवम्बमानः वाजेमहन् वाजिनम् जातवेदो देवानाम् भक्षिप्रियमादस्थम् ेवयान् भाज्यभ्येतु अनुत्पादप्ते प्रतिधस्तजन्तायस्वधा हस्मै यजमानाय धेहि येभ्यश्चाधिमन्द्यश्च वाजन्मादिश्चा जमेभ्यश्च दत्ते अर्जष्पा देवे वृदभ्यश्चाः वेदम् वह्निम् वातु जातवेदाः ुष्टरे वाजु पृथमानम् पृथिव्याम् देवेभिर्युक्तवतिरिः सजोढाः स्योनङ्कण् एता उपसुभगा विश्वरो भाविवर्षोभिश्रयमाना उदानैः ऋषाः सदे कवचमाना द्वानो देवे सुप्रायणा भवन्तु न्तरा मित्रा वरुणा चलन्ते मुखै यज्ञानामभिधंविधाने उषासा वागुम् सुखिरन्येषु शिल्पेऽर्थस्य यो न विगता दयामि रमा वागुम् स रथिना सुपर्णा देवो पश्यन्तौ भुवना जीष्पाः अभिप्रयम् चोदनाभाविमानाहोता राज्यजः प्रतिशा दिशन्ताः आदित्येत्मा भारदेवष्टयज्ञगुण्डरस्वदेशाद्रैर्न हावीन् हिडो बहोदामदभिस्तजा यज्ञम् नो देवी नुधत्ता तृष्टावीरम् देवकामञ्जजानष्टसर्वाजायत आशुरश्वः तृष्टेदम् विश्वम् भुवनञ्जानमहोः कर्तानमिघयक्षिहोतः अस्माघृतेनज्ञातमक्त उपदेवागौ पादयेतो लोकम् प्रजानम् नग्निनाहव्यानि वक्ष्यते प्रजापतेस्तपदावा प्रधानः सद्यो धातोपग्ने स्वाहा कृतेन हमिषापुरोगाजाहिषाध्याहविरन्तु देवा